ध्यायामोदलावकुन्दवतीजोमयीम् नैष्टिकीम् निदापाङ्गविरोगिनीम् भगवतीम् मन्दस्मितश्रीमुखी वात्सल्यामृतवर्षिणीम् सुमधुरम् सङ्कीर्तनालाविनी ्यामाङ्गीम् महुसित्रसूक्तिम् अमृतानन्दात्मिकाम् इद्वी ॐ अमृतेष्वै नमः ॐ अमृतेष्वै नमः ॐ अमृतेष्वै नमः गणाना आम् त्वा गणपति बृंह वामहे कविम् कवीनामभमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पद आनशृण्वन् उदिभित्थीरसाधनम् ओम् श्रीमहागणपदये नमः प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती क्स्ट् एन ओ क्लॉक् और इस् इ पीपल् शुड् बी स्टार्ट् बिको देर् इस् 7.45 सत्सङ्ग् 8.30 एट् सेविङ्ग् eight forty sorry put in it it's okay what is seven it's okay it's okay 1030 okay. 845 i think there is a satsang next monday okay so i want to attend what that satsang what is it, it? Thinking, huh? what is it in chennai am in what is it there is a satsang by the new uh, swami ji okay virtual yeah. uh, satsang yeah oh okay so you want to do at 9 if it's okay with you there badi badi we can do earlier so yeah. that we can finish by 7:45 which one is better no 9 is yeah. okay with me 9 is, okay. is okay okay so let's do 9 okay, we'll do right. huh 9 is okay if i fall asleep i'll tell my husband to wake me up <laughs> okay no problem <laughs> okay so let's do, okay. do it and then hop back then next week okay i'll i'll send daljit and the remainder next week as well okay so let's sure. do the chamaga we'll practice the 1 2 3 and 4 together and then we'll do four one more time together, the fourth paragraph, okay? वन् मोर् टैम् टुगेदर् फोर्त् पारग्राफ़् ओके ऊर्चमे सून्द्रच okay? मोर् टैम् टुगेदर् देन् केन् इण्डिविजुलि प्रेक्टिस् ओके रेडि ओके वन् टु त्री ओम् विष्णुष सेमावर्धन्तु जश्च मे प्रसवश्च मे प्रयतिष्ट्य मे प्रसिदिष्ट्य मे वीदिष्ट मे प्रतिष्ठ मे श्वश्च मे शोतश्च मे रावश्च चित्तञ्चम आधीतम् च मे वाक्च्य मे अनश्च मे चक्षुश्च मे श्रोत्रम् च मे चक्षुश्च मे बलम् चम ओजश्च परोकंषि च मे शरीराणि च मे जैष्ठम आधिपत्यम् च मे मन्युश्च मे भामश्च मे पश्च मेऽम्भश्च जेमा च मे महिमा च मे महिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राहुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे यदच्च मे धनञ्च मे वशश्च गीडा च मे मोदश्च मे जातम् च मे ज्यनिष्यमानम् च मे सूक्तम् च मे सुहृदम् च च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे नौ मनसश्च मे भद्रम् च यशश्च मे वदश्च मे द्रविणम् मे यन्ता च मे भर्ता च मे प्रेमश्च मे प्रतिश्च मे विश्वम् च मे महश्च मे संवृच्य मे ज्ञात्रम् च मे सूच्य सुखम् च मे शयनम् च मे तु च मे सुदिनम् च मे ऊश्च मे सुनृता च मे हयश्च मे शतश्च मे गृहम् च मे मधु च मे पब्धिश्च मे सभिधिश्च मे ऋषिश्च मे पृष्टिश्च मे जैत्रम् च औद्भिध्यम् च मे दहिश्च मे प्रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षिदिश्च मे उहवाश्च मेन्नम् च मेषुश्च मे ब्रीहयश्च मे यवा आश्च मे माषा आश्च खल्वा आश्चमे गोधूमा आश्च मे मसुरा आश्चमे प्रियङ्क पश्चमेण पश्चमे श्यामाता आश्च मे नीवारा आश्चमे वन् मोर् टेन् तु फोर्त् वन् त्री टु टु करो ओके वन् मोर् टेन् वन् टू थ्री ऊर्चमेनृता च मे पयश्च मे प्रसश्च मे गृहम् च मे मधु च मे सब्दिश्च मे सफीदिश्च मे वृष्टिश्च मे जैत्रम् च औद्भिद्यम् च मे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 मुद्गाश्च मे खल्वा आश्चमे गोधूमा आश्चमे मधुरा आश्चमे प्रियङ्गवश्चमेण वश्चमे शामाता आश्चमे नीवाराश्चे फ़्रवरि पडि स्पीड्वास् के ओके So who wants to try मे सूता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सद्दिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रञ्च औद्विद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेनं च Very Very good. nice. श्चमे कल्वा आश्चमे गोधूमा आश्चमे मसुरा आश्चमे प्रियङ्गवश्चमेण वश्चमे श्यामाकामेवाराश्चमे वेरि Okay. Let me try. okay. ूर्च मे सूनृता च मे मधुचमे, मे रसश्च मे घृतञ्च मे मधुच मे सग्धिश्च मे सपीतिश्च मे कृशिश्च मे वृष्टिश्च पूर्णंञ्चमे पूर्णतरञ्च मेक्षिष्टिश्चमे कूयव्राज्यमे पूर्णतरञ्च मेक्षितिश्चमे पूर्णतरञ्चम क्षितिश्चमे कूयव्राज्यमे पूर्णतरञ्च मेक्षितिश्चमे पूर्णतरञ्चम क्षितिश्चमे पूर्णतरञ्च मे क्षितिश्च मे करेक्ट् मा कूयवाश्च मे नञ्च मे षुश्च मेश्च But the cha is double cha, okay? How do you say it? Kujavaascha menanja me khrushcha Me khrushcha me Me khrushcha me Kujavaascha khru <laughs> khru menanja <laughs> Me khrushcha me Me khrushcha Me khrushcha Kha Me khrushcha me Me khrushcha me Right, yes. Me <laughs> khrushcha मे व्रीहयश्च मे यवाश्च मे मासाश्च मे तिलाश्च मे मुग्धाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे न वश्च मे मे सूनृता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सग् मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णञ्च मे पूर्णतरञ्च मे क्षितिश्च मे कूयवाश्च मे नञ्च मे क्षुच्च मे तिला आश्चमे मुद्गाश्च मे कल्वा आश्चमे गोधूमा आश्च मे मसुरा आश्चमे प्रियङ्गवश्चमे नवश्चमे श्यामाका आश्चमे नीवाराश्चमे कृपञ्चमे सप्ष्ठ मे सती मे कृषिष्ठमे चैत्रं चित्रं च मे औद्भिद्यं च मे चैत्र औद्भिद्यं च मे मे रायश्रमे पृष्टन्त मे पुष्टिष्ठमे प्रभृतमे प्रभृतमे पूर्णन्तमे पूर्णपरञ्च मे क्षितिष्ठमेवास्त नस्त मे फुष्टमे नासा आश्रमे किला आश्रमे श्चमे न वश्च Yeah, he can say a little slower or it will make me easier in the beginning, when you go a little slower, he can just say what exactly to say. Good. Who wants to try next? Kehari, I'll go. Okay. Urchame, Sunrita chame, Payas okay. chame, Rakas chame, Bhitan chame, Madhu chame, Sabhish chame, Safipish chame, कृषिश्च मे वृष्टिश्च मे जैत्रञ्चम औद्धित्यञ्च मे रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च व्रीहयश्च मे यवाश्च मे माषाश्च मे शिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेणवच्च श्चिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्र्यं चित्यं च मे जयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे शिजिश्च मे कूयवाश्च मेन थिङ्ग् इस् स्टार्टिङ्ग् वित् यवा दे एक्स्टेण्ड् देस् वृहयश्च मे यवाश्चमे माषाश्च मे Tila Aashchame, Mudga Aashchame, Khalva Aashchame, Godhu Maa Aashchame, Masura Aashchame. Okay, extend that A. Ah. Don't cut short. Okay, same thing. Uh, uh, so, everywhere where there is a double, you have to say extend it. Godhu Maa Aashchame, one A is uh, actually Udata one Anudata, but don't worry about it. But it, you have to extend it. Godhu Maa Aashchame, A A. ृता च मे पयश्च मे रसश्च मे घृतं मे go च मे गिश्च मे प्रपीतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रञ्च औद्भिद्यं च मे रयिश्च च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे श्च मे मुग्धाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे अनवश्च मे श्यामाकाश्च मे नीवाराश्चे गुड् नेक्स्ट् say ah, okay? प्रियङ्गश्च मे Okay, so then uh, you'll do one off with everybody else. That's all. Okay, okay. good Let's uh, everybody is done right. Let's try the next Paragraph uh, uh, right everybody is done right? I think so Asma chame mritti kachame अश्माचमे मृतिकाचमे च मे गिरयश्च मे पर्वताश्च मे अस्मा चका च मे श्चियश्च पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे वनस्पतयश्च मे हिरण्यञ्च मे यश्च मेसि सञ्च मे वनस्पतयस्य श्रीसञ्च मेत्रपुश्च मे प्रपुष्ट श्रीसञ्च मेत्रपुश्च मे श्यामञ्चमे मे श्यामञ्च मे लोहं च मे श्यामञ्च श्यामं च मे लोहञ्च मे घ्निष्टम आपश्च श्यामं श्यामञ्च मे लोहे सोरि लोहञ्च मेग्निश्च बिगिनिङ्ग् टिल् हियर् वेदर् वी केन् गेट् इट् ओके अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मेयश्च मे सीसञ्च मे त्रपुश्च मे श्यामम् च मे लोहम् च मेऽग्निश्च अश्वाचेमे पञ्चमे लोहं मे लोहञ्च मे निश्चम आपश्च श्चेदाश्चिरं जमेपश्चमे इोके फ़ोर् एबडि Yeah, can, can, can we say uh, so it as Agnishchama, the last sentence. last sentence, last sentence, can we say it as yeah, Lohaschame, Agnishchama, Aapaschame, uh, can agnish we say chama. it that way? Okay. Oh. Yeah, uh -huh. Prabhushchame, Shamanchame, Lohamchame, Agnishchama, Aapaschame, agnish agnish Aapaschame, Aapaschame. If you want to say Agnesha, you can do it, but you have to say Lohan Chame Agnesha Maapas Chame It's okay, right now when you are learning it, it's okay to say Agnesha Maapas Chame You can say Lohan Chame Agnesha Maapas Chame You can say that if you want, okay? Okay Later on, you to, when you say it, what happens is when you say it, if you elongate the may, the akara will automatically become shorter it sound better as well okay it will become oh. instead of saying it like lohamcha me agnishcha ma so that a will be very short then it will still be there okay. so if you want to split you can do lohamcha me agnishchame aapashchame you can say that as well okay okay, okay. when you are learning it you can do all that do no, don't worry okay okay श्च ओषधयश्च मेरु बीरुदश्च म ओषधयश्च मे कृष्टपच्यम् कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मेशोब्ध कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मेच्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे पशव आ मे वित्तिश्च मे भू पशवत् वित्तञ्च मे वित्तिश्च मे वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे वसति वसतु वसतिश्च मे कर्मच मे वसतिश्च मे कर्मच मे कर्मच मे वसति कर्म च मे शक्तिश्च मे कर्म च शक्तिश्च मेऽर्थश्च म एमश्च मे यदा चर्मे तस्य मशेम तमे च शक्तिश्च मे तस्मै परमनेययम च मेम शक्तिं दमो तस्य शक्तिश्च मे शक्तिश्च देवं अर्चषमे अर्थस्य अर्थसंयि शक्तिश्च मेर्तश्च मे शक्तिश्च मेर्तश्च एवमश्च मेश्च श्च मेऽर्थश्च म एमश्च म इतिष्ट मे एमश्च इतिष्ट मे गतिश्च मे शक्तिष्ठ मेऽर्थश्च मेमश्च म इतिष्ट मे गतिश्च मे Let's सेकेण्ड् हाफ् ओके मे बिल् लिसन् टु टु लैन्स् अण्ड् गो टु दु लैन् बटन् विरुदश्च ओषधयश्च मे कृष्ठपच्यं च मे कृष्ठपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे श्च मोदयश्चे पशवहारण्यांश्च मे यज्ञेन कल्पन्तां च मे यच्छ पशुपालश्चे भित्तिश्च मे भूतम् च मे भूतिश्च मे वसु मे वसतिश्च मे कर्म मे शक्तिश्च मेऽर्थश्च मेमश्च म इतिश्च मे गतिश्च मे तेष्टमेभिर्दुर्लञ्जनन्दमेतेनतेमेवसुचमेदुपकृदिमयेकर्मचमेसत्चितमेतस्चमहेमरजमएस्थितमेगतिश्चमेगतिश्चमे ग्राफटेद स्लोलि रेडि ट्रै टुगेदर वन टु थ्री अस्मा च मे मृत्तिका च मे हिरयश्च मे पर्वताश्च मे सु मे वनस्पतयश्च मे हिरण्यं दृष्टम आपश्च ीरुदश्च म ओषधयश्च मे पृष्ठपच्यञ्च मे पृष्ठपच्यञ्च मे मे ग्राम्याश्च मे पशप आरण्याश्च यज्ञेन कल्पन्ता वित्तञ्च मे वित्तिश्च भूतञ्च मे भूतिष्ठ मे वसुच मे वसतिष्ठ मे कर्म च मे शक्तिष्ठमे ओकेट् वन् वर् टेन् टुगेदर् वन् टु त्री अस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे चिकसाश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शीतञ्च मे त्रपुश्च मे श्यामञ्च मे गोपञ्च मे कृष्ण आपश्च मे गीरुदश्च ओषधयश्च मे पृष्ठपक्ष्यं च मे वित्तञ्च मे भूतञ्च मे भूतिश्च मे वशु च मे वसतिश्च मे कर्म च मे षष्टिश्च मेष्टिष्ट मे गतिश्च मे श्च मे विश्व मे भूतं च मे भूतिश्च मे वसुच मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च मेमश्च मतिष्ठ मे गतिश्च मे स्लोलि ओके वन टु त्री वृत्तिष्ठ मे भूत च मे बोधिष्ठ मे वसुच मे वसतिष्ठमे कर्मच मे शक्तिष्ठमे अमे ओके स्टार्टिङ्ग् विशुचमे वे कर्मश्चिष्ट मे गतिष्ठमेके अश्वाचने मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे िरण्यं च मे यश्च मे सिसञ्च मे त्रपुश्च मे श्यामं मे लोहं च मेग्निश्च मे अग्निश्चम आपश्च मे विरुदश्चम ओषधयश्च मे कृष्टपच्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्चम एमश्च में। इतिश्च मे गतिश्च मे is it you wanted to leave early too right it's, it's a i went slow so i can get that's there. what i liked actually yeah. it was yeah, very, very good, good. this fine when you are learning it this is very very extremely good that what you did yeah, yeah. thank you very bitwar uh, like a song sorry, actually after the call uh, okay no problem okay uh, thank you very much thank you sunita thank you. okay namaskar towards so to go next अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे निश्चम आपश्च विरुधश्च म ओषधयश्च मे कृष्टपच्यञ्च मे कृष्टपच्यञ्च मे ग्राम्याश्च मे पशु आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे वित्तिश्च मे भूतञ्च अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे चिकताश्च मे वनस्पतयश्च मे हिरण्यञ्च मे यश्च मे सीसञ्च मे त्रपुश्च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 शक्तिश्च मेश्च अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे तिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसञ्च मे प्रपोश्च मे श्यामं च मे लोहञ्च मे अग्निश्च आपश्च मे वीरूढश्च मे ओषधयश्च मे कृस्तपच मे कृस्तपच मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे श्च मे दास्ट् इस् लिटिल् ट् No, no, it's okay, what happens is, if it's followed by a, a Swara, in this case, A, E, U or something, then it becomes Ma instead of Me, okay, so, ah. ma, me, it's a Virudashtha Ma, yeah, Oshradaya yeah. Shchame, because this is Virudashtha, Me is followed by a yeah. Okara which is a Swara, so it becomes Ma, Virudashtha ah. Ma, Oshradaya Shchame, yeah, then if you split it, Krishthapachyam Chame, then you have to see the next one ah. is Krishthapachyam Chame, okay, because it is a Avagraha ah. there, It says the A ah, is a leader, okay, A ah, is not everything like that, so that is the only thing you have to look got at, it. okay? Okay, who wants to try next? Yeah. I have a book which is all in English, uh, right now it's all in English. I got okay. a new book which my dad gave, it okay. is okay, right, if it is all in English? If you know how to say it, it doesn't matter what language it is, so. You also have a mandra with you, right? No, this is a whole new book. from uh, some other publication which my dad gave when i went to india so mm -hmm. it is very bold and i <laughs> separately put it out okay. but anyway when i meet you i will show you the book okay yeah otherwise you can also take get another uh, online copy as well because there are a lot of online copies vijñanam.org if you go they have in all languages you want so with swara okay so you just just go down or up or something the poem in the english i find they sometimes they don't print it correctly in terms of like what you should say they don't, they don't have a difference between dha and da okay so yeah you have to okay. figure out whether is what they are there is dha or da or something like that okay so i will send you a picture of what i seeing now then you can take a look and let me know yeah but you know how to read devanagari right yeah i know if the uh, i felt this was little easier श्च मेखाश्चमे वनस्पदाश्चमे वनस्पतश्च मे वनस्पतश्च मे ओषधयश्च मे कृष्णं कृष्ण कृष्ण इन् मै थि कृष्ण्यं कल्पन्तां यत्नेन कल्पन्तां वित्तं च मे वित्तिश्च मे बोधं च मे बोधिश्च मे Vasyiechaṏ mi. Vasilyaschaṏ mi Karmachamé. Saktischaṏ mi. Syaṃschaṏ mi. Yastaṃi. Emaschaṏ. evea'machamha ijisaṃi. Yeah. When you say중에 Saktischaṏ mi. Next one you have to say Arthaśchaṏ mi, okay? Arthaśchaṏi. Okay? Okay. If you say together then we say Abrthaśchaṏ mi, Arthaśchaṏ mi, Emaśchaṏi, ituśca, you can say it, but if you're splitting there you have to say Arthaścha的时候, okay? Krrshtha Pachem europa. Krrshtha Pachem. Oh, I don't know why it is Krishna. Okay. Yeah. That's a, uh, error in, in printing. Okay. Okay. Mm. Okay. Who wants to try next? You can. Atmachame, श्च मेरण्यञ्च मेत्र श्यामश्च मे लोहञ्च मे निश्च मेरुधश्च ओषधयश्च वी, मे कृपथ्यं च मे कृष्टपथ्यं च ग्राम्याश्च मे पशव आरण्याश्च मे आरण्याश्च यज्ञेन कल्पन्ताम् पश... पशव आरण्याश्च यत् अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे त्रिकटाश्च मे वनस्पतयश्च मे हिरण्यम् च ग्राम्याश्च पशव आरण्यास्य यज्ञेन कल्पन्तां भित्तञ्च मे भित्तिश्च मे वसतिश्च इति okay then i think we'll uh, stop here and uh, next week uh, we'll start that range stuff at 9 of at, uh, at uh, 8:30 okay half an hour later and else in that out the uh, next week so let us uh, do three loga hasamstaha and then we will stop any questions before we stop okay okay lot of noise is coming from one लेबि दिस् लेटाप्के ऐ थिं ईके सो इो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्ति शान्तिशान्तिः ॐ श्रीगुरुभ्यो नमः परिः ओम्